मुद्गलपुराणं खण्डं वन् वक्रतुण्डचरितम् अध्यायं फिफ्टि टु श्री श्रीगणेशाय नमः याज्ञवल्क्य उवाच एतस्मिन्नन्तरे तत्र ययज्योतिर्विदुत्तमः डुण्ढिनामा द्विजो यस्तु पुरा प्रोक्तो मयानख सर्वं तन्नगरं तेन मोहिदं तत्क्षणान्मुने पश्चात्समागतो बुद्धो विष्णुर्भ्रष्टं तथाकरोत् डुण्ढिना स दिवो दासो बोधितः त्यक्तवान् राज्यम् बौद्धेन सन्तस्तौ प्रतीक्षन् शिवदर्शनम् ताभ्यामाकाशितः शम्भुप्रययौ गणपम् पुरः कृत्वा सम्पूज्यतम् काश्यामादौ चक्रे हि वासिनम् स्वयम् देवगणैः विवेशः न नामचरणे काशीविघ्नपस्य शिवस्य च यथास्थानं स्थिताः सर्वे देवा ऋषिगणाः सुखं दिवो दासाय स शङ्करः प्रददौ तदः तदः कदाचिद्देवेशो जगादगिरिशं वचः तुभ्यम् दत्तामयाकाशी कृदं सर्वं यदा यथम् अधुना हं महादेव यास्ये स्वं धामशोभनं यदा मे स्मरणं कुर्यास्तदा द्रक्ष्यसि मां शिव इत्युक्त्वा ढुण्डिविप्रेण सहितोस्सौ गजाननः अन्तर्धानं ययौ तत्र देवानां पश्यदां मुने ततः स्वयं विश्वनाथस्तस्य मूर्तिं विधाय सः विधिवत्पूजयामास चोपचारैर्मनोरमैः सर्वैः कृत्वा नमस्कारं प्रादक्षिण्यं चकारसः सर्वाञ्जगादविश्वेशोहितं शृणुदमेवचः आदौ डुण्ढिं समभ्यर्चये मां तोष्यदि तेभ्यो मुक्तिं तथा मुक्तिं दास्यामि त्वन्यथा न च काशीवासफलस्यापि दातायम् वक्रतुण्डकः वेदादीनां रपस्यं यदन्विष्टं तु मया बहु तन्मूलोऽयं हृदि प्राप्तः प्रभुः अतोऽयं डुण्डिराजेदीनाम्ना ख्यातो मया कृतः धर्मार्थकाममोक्षाणां दादाक्षेत्रे न संशयः एवमुक्त्वा महादेवो नित्यं पूजापरायणः डुण्डिराजस्य सेवायां सावधानो बभूवः तथा त्वमपि देवेश्यं विघ्नराजं भज प्रभो त्यक्त्वाहङ्कारभावं तु ब्राह्मण प्रभविष्यसि मुद्गल उवाच याज्ञवल्क्यवच श्रुत्वा विश्वामित्रो महातपाः जगादतं महाभागं विनयेन समन्वितः विश्वामित्र उवाच याज्ञवल्क्यमहाभाग त्वयाहं बोधितः अधुना वद मे ज्ञानं सर्वज्ञोऽसि महामुने अहङ्कारो मयात्याज्यकेन त्याज्यकेन मार्गेण तद्वद कीदृशो मे शरीरे सौवद तिष्ठति साम्प्रदम् गणेशानमहं केन भजेयं विधिना वद स्वरूपं च कथं तस्य योगीन्द्रोऽस्ति यतः याज्ञवल्क्य उवाच शृणु त्वं कौशिकब्रह्मणहङ्गारं तपसा ब्राह्मणत्वं वै प्राप्स्यामि न हि संशयः येनमेव विजानीह्यहङ्कारं तु महामते तस्य त्यागे विधिं वक्ष्ये तं शृणुष्व यथायथं प्राप्तये ब्राह्मणत्वस्य तपेयं तप उत्तमम् यदा दास्यदि देवोऽसौ तदा ब्राह्मणदा भवेद् यदा न देवेन राजर्षित्वं तदा खलु अस्तु तच्च कोऽहं मे कीदृशं तपः अहं सदा पराधिनो देहधारीण संशयः करोमि यत्नमत्यन्तं दैवं चेत् प्रभविष्यति अनेन विधिना विप्रतपःस्वत्वं महामुने तदा प्रभविदा सर्वं गदाहङ्कारभावतः अन्यत्वं शृणु वाक्यं मत्सरं त्यजकौशिक शरणं गणराजं तं याहि तेन सुखं भवेत् न मत्समं स्पर्धसे तेन वैद्विजान् मत्सरेण समाविष्ठकुतस्त्वं ब्राह्मणो भवेहे त्वया मत्सरभावेन वसिष्ठस्य महात्मनः पुत्राणाम् च शदम् पूर्णम् नाशिदम् रक्षसा यथा अपरा सृष्टिरारब्धा त्रिशङ्कर्थम् पुरा त्वया वसिष्ठहनने यत्नम् नानारूपम् करोषि वै तम् मत्सरम् वै विधिम् च शृणुतत्वदः नीतोऽहं सर्वविप्रेभ्यस्तपस्विभ्यो न संशयः मया किं वा तपःकार्यमेभ्यश्चाधिकमादराद येषां तपःप्रभावोऽपि मनसागम्यते न च एवं ज्ञात्वा प्रभविष्यसि अन्यथा युगसाहस्रं तपस्तत्वा सर्वेभ्यो नमनं विप्रहृदि भावसमन्वितं कर्तव्यं च त्वया नित्यं राजर्षि वन्महामदे एवमुक्त्वा महायोगी वक्रतुण्टप् प्रभावजां कथां संश्रावयामास पूर्वजादां महायशाः कथां श्रुत्वा महाभोगो विश्वामित्रसुविस्मितः उवाच तं नमस्कृत्य याज्ञवल्क्यं तपोधनं विश्वामित्र उवाच वक्रतुण्डस्य योगीन्द्रचरित्रं संश्रुतं मया अधुना वद मे ब्रह्मन् तस्यानुभवरूपकम् याज्ञवल्क्य उवाच शृणु यत्नेन माहात्म्यं पुरावृत्तं कथानकं कथयामि च ते प्रीत्या मदीयं ज्ञानदायकम् एकदाहं गदो ब्रह्मन् वैकुण्ठं स्वर्गमुत्तमं तत्र नारायणं नत्वा पृच्छं तं जगदीश्वरं किं सारं सर्वभूतेषु कस्याधारेण संस्थितं मह्यं वदमहाभागसाक्षात्त्वं जगदीश्वरः इदं सर्वं त्वदातारं भासदे कृति सर्वदा तथापि प्रष्टुमिच्छामि श्रवणार्थं यथा यथम् ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे चरिते वक्रतुण्डचरिते याज्ञवल्क्यनारायणसम्प्रश्नवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ओ